अथ पञ्चषष्टितमः सर्गः अथ हैमवतीम् रामदिशम् त्यक्त्वा महामुनिः पूर्वान् दिशमनुप्राप्य तपस्तेपे सुदारुणम् मौनम् वर्षसहस्रस्य कृत्वा व्रतमनुत्तमं चकारा प्रतिमम् राम पूर्णे वर्षसहस्रे तु काष्ठभूतम् महामुनिम् विघ्नैर्बहुभिराधूतम् क्रोधो नान्तरमाविशत् सकृत्वा निश्चयम् राम तप आतिष्ठता व्ययम् तस्य वर्षसहस्रस्य व्रते पूर्णे महाव्रतः भोक्तुमारब्धवानन्नम् तस्मिन् काले रघूत्तमा इन्द्रो द्विजातिर्भूत्वा तम् सिद्धमन्नमयाचत तस्मै दत्त्वा तदासिद्धम् सर्वम् विप्राय निश्चितः निःशेषिते भगवानभुक्तैव महातपाः न किञ्चिदवदद्विप्रम् मौनव्रतमुपास्थितः तथैवासीत् पुनर्मौनमनुच्छ्वासम् चकारः अथ वर्षसहस्रम् च नोच्छ्वसन्मुनिपुङ्गवः तस्यानुच्छ्वसमानस्य मूर्ध्धूमोऽ व्यजायत त्रैलोक्यन्येन सम्भ्रान्तमातापितमिवाभवत् ततो देवर्षिगन्धर्वाः पन्नगोरगराक्षसाः मोहितास्तपसा तस्य तेजसा मन्दरश्मयः कष्मलोपहताः सर्वे पिता महमथा ब्रुवन् बहुभिः कारणैर्देव विश्वामित्रो महामुनिः लोभितः क्रोधितश्चैव तपसा चाभिवर्धते न ह्यस्य व्याकुलाश्च दुशः सर्वान च सर्वे विशीर्यन्ते च पर्वताः प्रकम्पते च वसुधा वायुर्वातीह सङ्कुलः ब्रह्मन्न प्रतिजानीमो जायते जनः सम्मूढमिव त्रैलोक्यम् भास्करो निष्प्रभश्चैव महर्षेस्तस्य तेजसा बुद्धिर्न कुरुते यावन्नाशे देवमहामुनिः तावत्प्रसादो भगवन्नग्निरूपो महाद्युतिः कालाग्निना यथा पूर्वम् त्रैलोक्यम् दह्यते अखिलम् देवराज्यम् चिकीर्षे तदीयतामस्य जन्मनः ततः सुरगणाः सर्वे पितामहपुरोगमाः विश्वामित्रम् महात्मानम् वाक्यम् मधुरमब्रुवन् ब्रह्मर्षे स्वागतम् तेऽस्तु तपसा स्वषिताः ब्राह्मण्यम् तपसोऽग्रेण प्राप्तवानसि कौशिका दीर्घमायुश्च ते ब्रह्मम् ददामि समरुद्गणः स्वस्ति प्राप्नुहि भद्रम् ते गच्छ सौम्य यथा सुखम् पितामहावजः श्रुत्वा सर्वेषाम् त्रिदिवौकसाम् कृत्वा प्रणामम् मुदितो व्याजहारमहामुनिः ब्राह्मण्यम् यदि मे प्राप्तम् दीर्घमायुस्तथैव च ओङ्कारोऽथव षट्कारो वेदाश्च वरयम् तु माम् क्षत्रवेदविदाम् श्रेष्ठो ब्रह्मवेदविदामपि ब्रह्मपुत्रोऽ वसिष्ठो मामेवम् वदतु देवताः यद्येवम् परमः कृतो यान्तु सुरर्षभाः ततः प्रसादितो देवैर्वसिष्ठो जपताम् वरः सख्यम् चकार ब्रह्मर्षिरेवमस्त्विति चाब्रवीत् ब्रह्मर्षिस्त्वन्न सन्देहः सर्वम् सम्पद्यते तव इत्युक्त्वा देवताश्चापि सर्वा जग्मुर्यथा गतम् विश्वामित्रोऽपि धर्मात्मा लब्ध्वा ब्राह्मण्यमुत्तमम् पूजयामास ब्रह्मर्षिम् वसिष्ठम् जपताम्बरम् कृतकामो महीम् सर्वाम् च चारतपसि स्थितः एवम् त्वनेन ब्राह्मण्यम् प्राप्तम् राम महात्मना एष राममुनिःश्रेष्ठ एष विग्रहवाम्स्तपः एष धर्मः परो नित्यम् वीर्यस्यैष परायणम् एवमुक्त्वा महातेजा विररामद्विजोत्तमः महा। शतानन्दमजः श्रुत्वा रामलक्ष्मणसन्निधौ जनकः प्राञ्जलिर्वाक्यमुवाचकुशिकात्मजम् धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे मुनिपुङ्गवा यज्ञम् काकुत्स्थसहितः प्राप्तवानसि कौशिक पावितोऽहम्त्वया ब्रह्म दर्शनेन महामुने गुणा बहुविधाः प्राप्तास्तव सन्दर्शनान् मया विस्तरेण च वै ब्रह्मन् कीर्त्यमानम् महत्तपः श्रुतम् मया महातेजो रामेण महात्मना सदस्याप्य ज सतःश्रुतास्ते सदस्य। बहवो गुणा अमेयं तवस्तभ्यमेय बल अ गुणाश्यं कुशिकात्मज तृप्तिराश्चूता मे विभो कर्म कालो मुनीश्रेष्ठ लिमंडल शे महातेजो द्रषुम्मान स्वागतम् जपताम् श्रेष्ठ मामनुज्ञातुमर्हसि एवमुक्तो मुनिवरः प्रशस्य पुरुषर्षभम् विससर्जासु जनकम् प्रीतम् प्रीतमनास्तदा एवमुक्त्वा मुनिः श्रेष्ठम् वैदेहो मिथिलाधिपः प्रदक्षिणम् चकाराशु सोपाध्यायः स बान्धवः धर्मात्मा सह लक्ष्मणः स्ववासमपि चक्रामपूज्यमानो महात्मभिः शे श्रीमद्राणे वाक आदि का्यलकांडे पंचष्टित सग